त्रयोदशञ्चस जने अज्ञाताः परिवत्सरम् ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश अस्माभिर्निर्जिता यूयौ वने द्वादश वत्सरान् वसध्वम् कृष्णया सार्धमजिनैः प्रतिवासिताः त्रयोदशञ्चस जने अज्ञाताः परिवत्सरम् ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश त्रयोदशे च पुनरेव यथोचितम् स्वराज्यम् प्रतिपत्तव्यम् नितरैरथ वेतरैः अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर अक्षानुक्त्वा पुनर्यूतमेहि दीव्य स्व भारत अथ सभ्याः सभा मध्ये समुच्छ्रित करा सर्व एव सभ्या ऊचुः अहो धिग्बान्धवा नैनम् बोधयन्ति महद्भयम् बुद्ध्या बुद्धेन्न वा बुद्धेदयम् वै भरकर्षभः उवाच जन प्रवादान्सु श्रिया च धर्म संयोगात् पार्थोऽद्यूतमियात् पुनः जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् अप्यासन्नो विनाश स्यात् चिन्तयन् युधिष्ठिर उवाच कथौ वै राजा स्वधर्ममनुपालयन् आहूतो विनिवर्तेत दीव्या